प्रस्थिता स्वाप्य परंत अ्रजत भद्रं वो विषया तं नृपोत्तमा भ्रातुर्वचना पांडवाधर्मचारिण यहां सर्वाने कैकं स्रजन विराटमन्वयात्तूर्णम् दृष्टद्युम्नः प्रतापवान् धनञ्जयो यज्ञसेनं महात्मानं महारथम् भीष्मम् च धृतराष्ट्रम् च भीमसेनो महाबलः द्रोणम् तु ससुतम् वीरम् सह देवो युधाम्पतिः नकुलः सुबलम् राजन् सह पुत्रम् समन्वयात् द्रौपदेयाः ससौभद्राः पर्वतीयान् महारथान् अन्वगच्छंस्तथैवान्यान् क्षत्रियान् क्षत्रियर्षभाः एवम् सुपूजिताः सर्वे जग्मुर्विप्राः सहस्रशः गतेषु पार्थिवेन्द्रेषु सर्वेषु ब्राह्मणेषु च युधिष्ठिरमुवाचेदम् वासुदेवः प्रतपवान् आपृच्छे त्वाम् गमिष्यामि द्वारकाम् कुरु नन्दन राजसूयम् क्रतुश्रेष्ठदिष्ट्या त्वम् प्राप्तवानसि तमुवाचैव वा मुक्तस्तु धर्मराजो जनार्दनम् तव प्रसादाद् गोविन्द प्राप्तः क्रतुवरो मया क्षत्रम् समग्रमपि च त्वत्प्रसादाद् वशेस्थितं उपादाय बलिं मुख्यं मामेव समुपस्थितं कथं त्वद्गमनार्थम् मे वाणी वितरते न नह्यहं न ह्यहम् त्वामृते वीररतिम् प्राप्नोमि कर्हि चित् चैव गन्तव्या भवता द्वारका पुरी एवमुक्तः स धर्मात्मा युधिष्ठिरसहायवान् अभिगम्याब्रवीत् प्रीतः वृथाम् पृथुयशा साम्राज्यम् समनुप्राप्ताः पुत्रास्तेद्य पितृष्वसः सिद्धार्थावसुमन्तश्च सा त्वम् प्रीतिमवाप्नुहि अनुज्ञातस्त्वयाचाहम् द्वारकाम् गन्तुमुत्सहे